पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिं पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सति पतिं प्रणतभक्त परं परं भजत रे न जनको जननी न च सोदरो न तनयो न च भूरिबलं सेवितं भजत रे मनुजादिरिजापतिं शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति न तं नृणा अभयदं करुणावरुणादयम् भजत रशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजं चितिरजोधवलीकृतविग्रहं भजत रे मनुजागिरिजापतिं मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलव्रदं प्रलयत सुरासुरमानवं भजत रे मनुजा गिरिजापतिं मदमपास्य मा चिरं हृदि संस्थितं मरणजन्मजरामय गिरिजापतिं हरिविरं चिसुराधिपपूजितं यमजनेश धनेश नमस्कृतं त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिं पशुपतेष्टगमद्भुतं विरचितं पृथिवीपतिसूरिणा अठति संशृणुते मनुजः सदा शिवपुरीं वसते लभते नूतम्